छान्दोघ्योपनिषत् अध्यायं फोर् खण्डं वन् को जानश्रुतिर्हपौत्रायणश्रद्धा देयो बहुधायी बहुपाक्य आससः सर्वदावसधान्मा पयाञ्चक्रे सर्वद एव मेत्स्यन्तीति अधहगं स निशायामधिपेदस्तद्धैव गं हगं सोऽहं समभ्युवाद भो भो पौत्रायणस्य समन्धिवा ज्योदिरातदन् तन्मा प्रसाक्षीस्तत्वा समूहपरःप्रत्युवाचकं वर येनमे दत्सन्दगुं सयुग्वानमिव रयिक्व माधेधि योऽनुकथगुं सयुग्वा, माधे सयुग्वा इति यथाकृताय विजिता या सर्वं तदभिसमेधि यत्किञ्च प्रजा साधो कुर्वन्ति यस्तद्वेद यत्सवेदसमयैतदुःख इति तदुःखजानश्रुतिः पौत्रायण उपशुश्रावसः सञ्जिघान एव सयुग्वानमिव रैक्व माधेधि योऽनुकधुं सयुग्वा रैक्व इति यथाकृतायभिचिताय धरे या सह्यन्त्येव मेनघुं सर्वं तदभिसमेधि यत्किञ्च प्रजा साधु यस्तद्वेद यत्स वेदसमयैत दुःख इति सखक्षत्तान्विष्य नाविदमिति प्रत्ययायतगुं होवाच यत्र रेभ्राह्मणस्यान्वेषणास्तदेनमर्च्छेदि शोधस्ता चकडस्यपामानं कषमाणमुपोपविवेशत गुं हाभ्युवादत्वनु भगवस युग्वारयिक्व इत्यहगुं हर्या इति हदिजज्ञे सहक्षताविदमिति प्रत्ययाय अध्यायं फोर् खण्डं टु तदुकजानश्रुतिः पौत्रायणषट्शतानि गवानिष्कमश्वतरी रथन् तदा दायप्रदिचक्रमेतगंहाभ्युवाद रैक्वेमानिषट्शतानि गवामयन्निष्कोयमश्वतरी रथो नुम येदां भगवो देवतागुंशाधियान्देवदामुपास इति तमुः परः प्रत्युवाचाक हारे त्वा शोद्धृतवैव सह गोभिरस्त्विधि तदुः पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवान् निष्कमश्वतरी रथन् दुहितरन् तदा दायप्रतिचक्रमे तगुंहाभ्युवादरैक्वे दगुं सहस्रं गवामयन् निष्कोयमश्वतरीरथ इयञ्जायायं ग्रामो यस्मिन्नाेन्वे मा भगवशाधीतिः तस्याः मुखमुपोद्गृह्णन्नुवाचा जहारेमाशूद्रणेनैव मुखेनालापयिष्यथा इति ते हैदेरैक्वपर्णानामहावृषेषु यत्रास्मा उवासतस्मै उवाच अध्यायं फोर् घण्डं त्रि वायुर्वावसंवर्गो यदा वा अग्निरुद्वा यदि वायुमेवाप्येदि यदा सूर्योस्तमेदि वायुमेवाप्येदि यदा चन्द्रोस्तमेदि वायुमेवाप्येति यथाप उच्छुष्यन्ति वायुंमेवापि यन्ति वायुह्ये वैदान् सर्वान् सं वृङ्क इत्यधिदैवतम् अधाध्यात्मं प्राणो वावसंवर्गः स यथास्वपिदिप्राणमेव वागप्येदिप्राणं चक्षु प्राणगं श्रोत्रम् णं मनःप्राणो ह्ये वैदान् सर्वान् संवृङ् इति तौ वा ये तौ द्वौ संवर्गौ वायुरेव देवेषु प्राणःप्राणेषु अधः शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिम् परिविश्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उहन न सहो स होवाचमहात्मनश्च दुरोदेव एघः कः सन् जगार भुवनस्य गोपास्तङ्कापेयनाभिपश्यन्ति मर्त्या अभिप्रधारिन्बहुधा वसन्त यस्मै वा ये ददन्नन्तस्मा येदन्न दत्तमिति तदुः प्रत्ययायात्मा देवानाञ्जनिदा प्रजानागम् हिरण्यदघृष्ट्रो बभसो न सूरिर्मखान्दमस्य महिमानमाहुरनद्यमानो यदनन्नमती दिवै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति तस्मा उह ददुस्तेवा ये दे पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृदन्तस्मात् सर्वासु दिक्ष्वन्नमेव दशकृदगं सैषा विराडन्नादि तयेदगं सर्वन् दृष्टगं सर्वमस्येदन्धृष्टं भवत्यन्नादो भवदीय एवं वेद सत्यकामोहजाबालो जबालां मादर मान्द्रयाञ्चक्रे ब्रह्मचर्यं भवति विवक्ष्यामि किं गोत्रोऽन्वहमस्मीति साहै नमुवाच नाह मे दद्वेदतादयद्गोत्रस्त्वमसि बह्व सञ्चरन्दि परिचारिणि यौवने त्वा मत् लभे साहमेदन्न वेद यद्गोत्रस्त्वमसि जबालादुनामाहमस्मि सत्यकामो नामस्त्वमसि सत्यकाम एव जबालोऽब्रुवीधा इति अध्यायं फोर् खण्डं फोर् सह हारिद्रुमदङ्गौदममेत्यो वाजब्रह्मचर्यम् भगवदिवस्याम्युपेयां भगवन्तमिति स्थगुंहोवाच किं गोत्रो नु सोम्यासीदि स कोवाच नाहमे दद्वेदभो यत् गोत्रोहमस्म्यपृच्छं मादरगुं स माप्रत्यब्रवीद्वह्व पिचारिणीयौव्वामलभे साहेदन वेदय्गोत्र जबलादुनाह सकामो नासी दिशोह गुम सत्यमो जाबास्मी भो य तगुंहोवाच नैदभ्राह्मणो विवक्तुमर्हति समिधुं सोम्याकरो प्त्वा नेष्येन सत्यादगा इति तमुपनीयकृशानामबलानां च दुःसदागा निराकृत्यो अभिप्रस्तापयन्नुवाच न ना सहस्रेणावर्तेयेदि सहवर्षगणं प्रोवास तायदा सहस्रगं सम्पेदुः अध्यायं 4, खण्डं 5 अध हैनमृषभोऽभ्युवादसत्यकामा यदि भगवदिह प्रतिशुश्रावप्राप्ता सौम्य सहस्रघृ स्मः प्रापय न आचार्यकुलं ब्रह्मणश्च ते पादं ब्रवीदुमे भगवानिदिदस्मैहोवाच प्राजिधिक्कला प्रतीचीदिक्कला दक्षिणादिक्कलो दीचीदिक्कलैष वै सोम्यचदुष्कलःपादो ब्रह्मणः प्रकाशवान्नाम स ययेदमेवं विद्वागुंश्च चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिल्लोके भवति प्रकाशवदोकलोकान् जयधि ययेदमेवं विद्वागुंश्च दुष्कलं पादं अध्यायं फोर् खण्डं सिक्स् अग्निष्टे पादं वक्रे दिसहश्वो भूदेगा अभिप्रस्तापयाञ्चकारता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय ग उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्पोपविवेश तमग्निरभ्युवादसत्यकामा इति भगव इदिहप्रदिशुश्राव ब्रह्मणः सोम्यदे पादं ब्रवाणीदिब्रवीदु मे भगवानिधि तस्मै होवाज पृथिवी कलान्तरिक्षं कलाध्यौ कलासमुद्रकलैषवै सोम्यचतुष्कलः पादो ब्रह्मणो नन्दवान्नाम सययेदमेवं विद्वागुंश्चतुष्कलं पादं ब्रह्मणो नन्दवानित्युपास्ते नन्दवानस्मिल्लोके भवत्यनन्दवदोह लोकाञ्जयति ययेदमेवं विद्वागुंश्च दुष्कलं पादं ब्रह्मणानन्दवानित्युपास्ते अध्यायं फोर् खण्डं सवन् हगुंसस्ते पादं वक्रे दिसहश्वो भूदेगा अभिप्रस्तापयाञ्चकारता यत्राभि सायं बभूवस्तत्राग्निमुपसमाधायग उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मुपोपविवेश तगुं हगुं स उपनिपत्याभ्युवाद सत्यकामा इति भगव इधिह प्रतिशुश्राव ब्रह्मणः सौम्यदेवादं ब्रवाणीदिब्रवीदु मे भगवानिति तस्मै होवाचाग्निकला सूर्यकला चन्द्रकला विद्युत्कलैष वै सौम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम सययेदमेवं विद्वागुंश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिल्लोके भवदि ज्योतिष्मदोहलोकान् जयदि ययेदमेवं पादं ब्रह्मणो ज्योतिष्मा नित्युपास्ते मद्गुष्ठे पादं वक्रेधिसहश्वो भूदेगा अभिप्रस्तापयाञ्चकारता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय ग उपरुध्य तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम यदि भगवदिदं प्रतिशुश्राव अध्यायं फोर् खण्डम् एय् ब्रह्मणः सौम्यदे पादं ब्रवाणी दिब्रवीदु च प्राणकला चक्षुक्कला श्रोत्रं कला मनःकलैषवै सोम्यचतुष्कलः पादो ब्रह्मण आयतनवान्नाम सययेदमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवा नित्युपास्त आयतनवानस्मिल्लोके भवत्यायतनवदोकलोकान् जयधिययेदमेवं विद्वागुंश्च दुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते अध्यायं फ़ोर् घण्टं नैन् प्रापहाचार्यकुलन्तमाचार्योऽभ्युवादसत्यकामा यदि भगव इदिह प्रतिशुश्राव ब्रह्मविधिव वै सौम्यभासिको नुत्वा नु मनुष्येभ्य इदिह प्रतिजज्ञे भगवागुंस्त्वेव मे कामे ब्रूयाद श्रुतगुंह्येव मे भगवदृशेभ्य आचार्याद्धैव विद्याविदिदा साधिष्ठं प्रापतीति तस्मै है ददेवोवाचात्र हन किञ्चन वियायेदि वियायेति अध्यायं फ़ोर् कण्ठं टेन् उपकोसलोहवै कामलायनसत्यकामे कामलाय नः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य हद्वादशवर्षाण्यग्नेन् परिचचार सहस्मान्यानन्दे वासिनः समावर्तयगुं न समावर्तयति सञ्जायो वाचतप्तो ब्रह्मचारी कुशलमग्नेन्पर्यचारीन्मात्वाग्नयः परिप्रवोचन् प्रव्रोह्य स्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे सह व्याधिना माचार्यजायो वाचब्रह्मचारिन्नशान किन्नु नाश्नासिदिसहोवाच बहव पुरुषे कामा नानात्यया व्यादिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति अधहाघ्नयः समुदिरे तप्तो ब्रह्मचारी कुशलह्नः पर्यचारीद्धन्तास्मै प्रभ्रभामेदि तस्मै होचुःप्राणो ब्रह्म कं ब्रह्म घं ब्रह्मेदि सहोवाच विजानाम्यहैयत्प्राणो ब्रह्म कञ्चदुः कञ्चन विजानामी दिदेहोचुर्यद्वावकन्तदेव कैयदेव कन्ददेव कमिति प्राणञ्जहास्मै तदाकाशञ्चोचुः अध्यायं फोर् खण्डम् पिलवन् अध हैनङ्गार्कपत्योऽनुशशासपृथिव्यग्निरन्नमादित्य इति य आदित्ये पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति स येदमेवं विद्वानुपास्तेपहदे पापकृत्याल्लोकी भवति सर्वमायुरेदिज्योग्ज्जीवति नास्या वरपुरुषाः क्षीयन्त उपवयन्तं भुञ्जामोऽस्मिघ्रिश्च लोके मोऽस्मिघ्रिश्च येदमेवं विद्वानुपास्थे अध्यायं फोर् खण्डं ट्वेल् अध हैनमन्वाहार्यपचनोऽनुशशापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यदे सोऽहमस्मि स एवाहमस्मीति स येदमेवं विद्वानुपास्थेपखदे पापकृत्याल्लोगी भवति सर्वमायुरेदिज्योग्जीवदि नास्या वरपुरुषाः क्षीयन्त उपवयन्तं भुञ्जामोऽस्मिघिश्च लोगे मुस्मिग्घिश्च येदमेवं विद्वानुपास्थे अध्यायं फोर् खण्डं तर्टीन् अध हैनमाहवनीयो नुशशासप्राण आकाशोऽद्यौ विद्युदिति येष विद्युदिपुरुषो दृश्यते सोऽहमस्मि स ये वाकमस्मीति स ययेदमेवं विद्वानुपास्ते भगदे पापकृत्या लोगी भवति सर्वमायुरेदिद्यो जीवति नास्यापरपुरुषाः क्षीयन्द उपवयन्दं भुञ्जामोऽस्मिग्भिश्च लोके मुष्मिग्भिश्च ययेदमेवं विद्वानुपास्ते अध्यायं फोर् खण्डं फोर्टीन् ते कोचुरुपकोसलयिषा सोम्यतेऽस्मिद्विद्यात्मविद्याचार्यस्तु ते तेगदिम् वक्रेत्या जगामहास्याचार्यस्तमाचार्योऽभ्युवाप्तोपकोसल इति भगव इदिहप्रतिशुश्रावब्रह्मविद्य इव सोम्यदे मुकम्भादि को, को नुत्वानुशशासेधिको नुमानु शिष्याद्भो इतिहापेव निह्नुद इमे नूनमीदृशा अन्यादृशा इति अग्निनभ्यूदे किं नु सोम्य किल ते वोचन्निति इदमितिह प्रतिजज्ञे लोकान्वाव किल सोम्यते वोचन्नहन्तु दे। तद्वक्ष्यामि यदा पुष्करपलाश आपो न एव एवमेवं विधिपापं कर्मणः शुष्यत इति ब्रवीदो मे भगवानिदि तस्मै होवाच अध्यायं 4 खण्डं 15 य एषोऽ क्षिणिपुरुषो दृश्यत एष आत्मेदि होवाचैदमृतमभयमे द्रह्मेदि तद्यद्यप्यस्मिन् सर्पे रोतकं वा सिञ्चदि वर्त्मन्येव गच्छति येदघं संयद्वामयित्याचक्षद ये दग्ं हि सर्वाणि वामान्यभिसंयन्दि सर्वाण्येनं वामान्यभिसंयन्दि य एवं वेद एष उ एव वामनिष हि सर्वाणि वामानी नयति सर्वाणि वानि नयदि येद एष ये उ एवमनी रेष सर्वेषु लोकेषु भाधि सर्वेषु लोकेषु भाधिय एवं वेद अथ यदु जनार्चिषमेवाभि सम्भवन्त्यर्चिषो हरन्द आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदी मासागुस्थान् मासेभ्यः संवत्सर गं संवत्सरादादित्य मादित्या चन्द्रमसञ्चन्द्रमसो विद्युदन्तत्पुरुषो मानवस एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपदयेदेन प्रतिपद्यमाना इमं मानवमावर्तन्नावर्धन्तेनावर्धन्ते अध्यायं फ़ोर् खण्डं सिक्स्टीन् एष ह वैयज्ञो योऽयं पवत एषः सर्वं पुनादियदेश यन्निधं सर्वं पुनादि तस्मादेश एव यज्ञस्तस्य वा मनश्च वाक्चवर्तनी तयोरन्यतरां मनसा सद्घुस्करोदि ब्रह्म वाचा होदाध्वल्युरुद्गाधान्यतरागं स यत्रोपाकृते प्रातरनुवाके पुरापरिधानी याया या ब्रह्माव्यववदति अन्यतरामे ववर्तने गं सग्स्करोधि यथेऽन्यतरास यथैकपाध्व्रजन्रथो वैकेन चक्रेण वर्धमानो ऋष्यत्येवमस्य यज्ञोरिष्यति यज्ञगं ऋष्यन्तै यजमानोऽनु रिष्यति सिष्ट्वा पापी यान्भवति अथ यत्रोपाकृते प्रादरनुवाघे न पुरा परिधानी या या एव वर्तनि सग्स्कुर्वन्ति न हि यथेन्यतरा स यथोभयपाद्व्रजन्रथो वोभ्याभ्याञ्चक्राभ्यां वर्तमानप्रदितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतिष्ठन्तै यजमानो नु प्रतिष्ठति स इष्ट्वा श्रेयान् भवति अध्यायं फ़ोर् खण्डं सेवेन्टीन् प्रजापतिर्लोकानभ्यदपत्ते शान्तप्यमानानागं रसान् प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यन् दिवः स एतास्तिस्रो देवता अभ्य तपत्तासान्तप्यमानानागुं रसान् प्रावृषदग्नेरृचो वायोर्यजुगुंषि सामान्यादित्याद स एदान्त्रयीं विद्यामभ्यस्तपस्तस्यास्तप्यमानाया रसान् प्रावृहद् भूरित्यर्भ्यो भुवरिधि यजुर्भ्य स्वरीद साम भ्रृक्श्ये भूस्वाहेद्येजुहुयादृशेनार्चा वीरे नाचा यग सन्दे अध यदि यजुष्ठो दृष्येद्भुव स्वाहेदि दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषा यज्ञस्य विरिष्ठगुं सन्दधादि अध यदि सामदो दृष्येत्स्वस्वाहेत्याह्वनीये जुहुयात्साम्नामेव तद्रसेनसाम्नां वीर्येण साम्ना यज्ञस्य विरिष्ठगं सन्दधाति तद्यधा लवणेन सुवर्णगं सन्दध्यासुवर्णेन रजतगं रजतेनत्रपुत्रपुणा सीर्षगं सीसेन लोहल्लोहेन दारुदारुचर्मणा एवमेषालोकानामासान्देवता नामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य वरिष्ठगं सन्दधादिभेषजकृदोह वा एष यज्ञो यत्रैवं विद्ब्रह्मा भवति एष ह वा उदप्रवणो यज्ञो यत्रैवं विद् ब्रह्म भवत्येवंविधुं कवा एषा ब्रह्माणमनुगाधा यदो यद आवर्तते तत्तद्गच्छ मानवो ब्रह्मैवैकऋत्विकुरु न स्वाभिरक्षत्येवंविद्ध वै ब्रह्म यज्ञ यजमानगम् सर्वाग्द्विजोऽभिरक्षति तस्मादेवं विधमेव ब्रह्माणं गुर्वीदनानेवं विधन्नानेवं विधम् इति चतुर्थोऽध्यायः ओ